ये जेति दशमास्यः दशमास्यो गर्भाः दशमास्येति दशमास्यः गर्भो जरायूणा जरायूणा सह सहेति सः यथायम् अयम् वायुः वायुरेजति येजति यथा यथा ये ये समुद्रः मुद्रयेजति एतत्तेवायम् वा अयम् दशमास्यः दशमास्यो अस्रदे दशमास्यैः दशमास्यः अस्रज्जनायूना जलायूना सह स एति स यस्यास्ते ते युग्गिजाः युग्गिजो गर्भाः गर्भो यस्याः यस्यायोनिः योयत् हिरण्यै हिरण्यैः हिरण्यैः अङ्गान्यः क्रोता आक्रोता यस्य तम् मात्रा मात्रा समाजीकमीकलमग्रस्वाहा स्वाहेति स्वाहा कुरुदस्मो ऋषुरूपणः कुरु दस्म इति कुरु दस्मः विशोरूप इन्दोः विशोरूपयितुषु रूपणः निन्दो दन्तः मन्वन्माहिमानम् महिमानमानन्द आनन्दधीराः धीर इति धीराः एकपदीं द्विपदीम् एकापदीमित्येका परीं द्विपदीम् त्रिपदीं द्विपदीमिति द्विपरीं त्रिपदीं चतुष्परीम् त्रिपदीमिति द्विपरीं चतस्परीमष्टाकादीं चतुष्पदीमिति चतुः पदीम् अष्टापादीम् भुवना अष्टापादीमित्यष्टा पदीम् भुवनानु अनुप्रथन्ताम् प्रथम् दास्वाहा पाहेति स्वाहा मरुतोजस्य हि ति क्षये क्षये ए इति विमहसः ततो गोपातामह सुगोपाकमो जनाः सुगोपाकमहिति सुगोपायामः जन इति जनाः महेद्यो द्यो पृथिवी पृथिवी च जनः न इमम् इमै यज्ञं निमिक्षता विमिक्षतामिति विमिक्षतान्नाः नो भरेम भरितिभरेव भिरि आदिघ्रादिघ्रकलसं कलसं मही मह्यात्त्वा आत्त्वा वा विसन्तो विसन्तो गावः इन्दाभरितेन्दवह पुनरोर्जा ओर्जानि निवर्तस्व रक्तस्व सा नाः नः सहस्रम् सहस्रम् दुक्ष दुक्षो दुधारा उरुधारा पयस्वती उरुधारेत्युरुधारा पयस्वती पुनः पुनर्मावीसतात् आवीसताद् विशताद्रैः कैरितिरयिः हम्बे काम्येः काम्यमिळेः बिले रन्त्रेः कन्द्रे चन्द्रेः चन्द्रे द्योतेः द्योते दीते अदीते सरस्वती सरस्वति महि महि विश्रुति विश्रुतिरिति विश्रुति एता ते ते अग्ने अग्ने नामानि नामानि देवेषु देवेषु मा मा सुभृतम् सुभृतम् ब्रूतात् सुभृतमिति सुकृतम् ब्रूतादिति ब्रूतात् इह रतिः रतिरिह इहला मध्वम् प्रमध्वमिह इह धृतिः धृतेरिह इह स्वधृतिः प्रजयति स्वाहा सजयति स्वृतिः स्वाहेति स्वाहा उपसृजम् धर्मम् उपसृजन् इत्युपसृजन् धर्मम् मात्रे मात्रे धर्माः धर्माः मातरम् मातरम् दयम् दयम् राजः राजस्पोषम् पोषमस्मासु अस्मासु श्रीहर स्वाहा स्वाहेति स्वाहा अयम् अज्योतीः ज्योतिभवृताः अमृताः अभूम अभूम दिवम् दिवम् पृथिव्याः पृथिव्या अधि तद्यारुढाम आरुढामरामेत्यारुहाम अभिरामदेवाने देवांसाः तज्योतीः ज्योतिरज्योतीः युवं तं तमिन्द्रापर्वता कर्मणापर्वता पुरोयुधा पुरोयुधायः पुरोयुजेति पुरतः युधा यो नाः अपृथन्यादि पृथन्यादपा अपतन्तम् तन्तमिति तन्तमिति तम् त्वम् युद्धतम् हतम् वज्रेन वज्रेन तन्तम् तन्तमिते तन्तमिति तम् त्वम् युद्धतम् हतमिति यच्छंसते शंसग्रहाणे यदिनक्षते यिनक्षदस्माकम् अस्माकम् शत्रून् शत्रून् परि परिशूर शूरविश्वताः विश्वतो धर्मा धर्मा दर्ज्येष्ठा दरिज्येष्ठविश्वताः विश्वत इति विश्वताः परमेत्यभिधीयितः परमे स्त्रीति परमे ेत प्रजापतिः अभिधेयेत इत्यभिधेतः प्रजापैकर्वाची प्रजापैरिति प्रजापतिः वाचिम् व्याघ्रेतायाम् व्याहृतायामन्धाः व्याहृतायामिती आहेतायाम् अम्भोयतः अच्चे एतस्सविता अच्छेत इत्यच्च इदः सविता संज्ञा सन्न्याम् विश्वकम्मा विश्वक्षायाम् विश्वकर्मेति विश्वकर्म दीक्षायाम् पूषा पूषा सो ऽमक्रयन्न्याम् सोमक्रयन्न्यामिति आह सोमक्रयन्न्यामिति सोम यन्या इन्द्रश्च च मरुदाः मरुतश्च चर्कयाया रयागोपोत्थीतः उपोत्थितोऽशूरः उपोत्थित इत्युकः उत्थितः असूरः मित्रः मित्रः क्रीतः क्रीतो विष्णोः विष्णुस्विष्टः इति विष्ट ऊरौ स्विष्टैते विष्टः ऊरा आसन्नः आसन्नो विष्णोः आसन्नयित्यासन्नः कृष्णन्नन्धेशः नलन्धेश प्रोह्यमानः प्रोह्यमाणः सोमाः प्रोह्यमानयति प्रोह्यमानः आगातो परोणः आगातयित्याघातः परोणः सन्ध्याम् आसन्ध्यामासन्नः आसन्ध्यामित्याह सन्ध्याम् आसन्नोऽग्निः आसन्न इत्या सन्न अग्निराग्नेभ्ये आग्नेभ्य इन्द्राः इन्द्रो हवित्थाने हवित्थानेथर्वा अभयद्धान इति हविः धाने अथर्वोपावहयमानः उपावहयमानो विश्वे उपावहजमान इत्यूप अवहयमानः विश्वे देवाः देवा, देवा आंशुषु आंशुषु नुप्यमानेषु निप्यमानेषु विष्णोः निप्यमाने श्रीनि उप्यमानेषु विष्णोराप्रेतपाः आप्रीतपा आप्यायमानाः आप्रीतप इत्याप्रीतपाः आप्यायमानो ना यमः आप्यायमान इत्याह प्याय्यमानः यमः श्रूयमानः ूयमानो विष्णुः विष्णुः सम्भ्रियमाणः संह्रियमाणो वायुः सम्भ्रियमाण इति सम्भ्रियमाणानः वायुः पूजमानः पूयमानः शुक्रः शुक्रः पूतः पूतः शुक्रः शुशुक्रक्षीर श्रीः क्षीरश्रीरन्मन्थी क्षीरश्रीरिति क्षीर श्रीः मन्थि सक्तुश्रीः सक्तुश्रीयन्विश्वे सप्तुश्रीति षट् श्रीः विश्वे श्री देवाः देवाश्च मसेषु यमशेषु उन्नी उन्नीत उन्नीत नीता असुरो महायोद्या उद्या रुद्र उद्यात ध्याद्रोमण पूजना आदो वाताः वातोऽभ्यावृत्तः अभ्यावृत्तो नृचक्षा आह अभ्यावृत्त इत्यादि आवृत्तः विचक्षा प्रतिख्यातः विचक्षा इति नृचक्षा आह प्रतिख्यातो भक्षः प्रतिख्यात इति प्रतिख्यातः भक्षः पीतः पीतपितराः पितरो नादासांसाः साध्यमानः साध्यमानः सिन्धोः सिन्धोरवभृथाय अववृथायो जातः अववृथायेत्यवृथाय उद्यातः समुद्रः उद्यात नित्य जातः समुद्रोऽभ्यवहयमानाः अभ्यवहयमानः सरिदः अभ्यवहयमानाः इत्याभि अवहयमानाः कविलप्रप्लूतः प्रप्लूत इति प्रप्लूतः यो रोजयसा वोजयसा स्कविला स्कविता रजाग्नेसि रजा अग्नेसि वीरव्येदिः वीरव्येरतामा वीरकमा चिष्ठा वीरतमेति वीरकमा चिष्ठेति च विष्ठा द्यापत्ये एते पत्ये एते अप्रतीता पत्ये एते इति पत्ये एते अप्रतीता सहोभिः अप्रतीतेत्यप्रतीता अहोभिर्विष्णु सहोभिः विष्णो अगन् विष्णु इति विष्णो अगन्वरुणा वरुणा पूर्वभूतौ पूर्वभूता इति पूर्वहोलौ देवान् दिवम् दिवामगन् अगन् यज्ञः देहस्तथाः ततो वा द्रवीणमस्तु अष्टु मनुष्यान् मनुष्यानन्तरिक्षम् अन्तरिक्षम् पितृन् पृजिवीयम् पृथिवीयं यङ्कम् कञ्च च लोकम् लोकमगम् अगङ् यज्ञः दिख्या, दिख्या, यज्ञस्तथाः ततो मे मे भद्रम् भद्रमाभूत् अभूदित्याभूत् देव सवितः सवितप्रा प्रा सवितः प्रसू सुवयिज्ञम् यज्ञम् प्रसूवा सुवेदम् इमम् भगाय वगाये दिभगाय दिव्योगन्धर्वः गन्धर्वः के एतपाः केतपाः केतम् केतपा इति केत प्राः न्नः नः पुनातु पुनातु वाचः वाचस्पतीः पतन्नः अद्य अद्य वायम् वायव्यस्वदतु स्वदत्ति स्वदतु ध्रुवसलम् वा ध्रुवसलमिति ध्रुवसलम् त्वा ऋषदम् ऋषदम् मनःसदम् ऋषदमिते सदम् मनःसदमुपयाम गृहे कः मनस्सदमिते मनः सदम् उपयाम गृहीतोऽसि उपयाम गृहे तयित्योपयाम गृहीतः से इन्द्राय ते योनिः योनिन्द्राय इन्द्राय त्वा त्वा त्वा त्वा त्वा त्वा त्वा जुष्टतमम् जुष्टतममप्सुषदम् जुष्टतममिति जुष्टतमम् अप्सुषदम् त्वा अप्सुषदमित्यप्सुषदम् त्वाभितसदम् घृतसदं व्योमसदम् घृतसगमिति व्योमसदम् कृति व्योम सदम् कृतिरिक्षसदम् सदम् अन्तरिक्षसदं दिविषदम् अनन्तरिक्षसदमित्यन्तरिक्ष सदम् दिलिसदं देवसदम् दिलिसदमिति दिरि सदम् देवसदं नाकसदम् देवसदमिति देवसदं नाकसदमिति नाकसदम् अपाग्रेतसं रसमुद्गायसम् उद्गायसां सूर्ये उद्गायसमित्युक्ते द्वायसं सूर्ये सन्तम् सन्ताम् समाहीतम् समाहीतमिकेशम् आहेतम् अपाद्ये रसस्य रसस्य यः यो रसाः रसस्तम् तुळङ्गाः गो गृह्णामि गृह्णाम्युत्तमम् उत्तममित्युक्ते तमम् ग्रहाभूवद्याहुदयः कोर्ज्यावृतयो व्यम्ताः पूर्जावृतयैत्योवर्ज आयः यन्तो विप्राय विप्राय मतिम् मतिमिति मतिम् तेषाम् विशिप्रियाणाम् विशिप्रियाणाम् वः विशिप्रियानामिति विशिप्रियाणाम् वोऽहम् अहमिषम् इषमूर्जम् समग्रभम् अग्रभमित्यग्रभम् सम्पृचस्था सम्पृचैते सम्पृचाः ससं भद्रेण भद्रेण दृन्त दुन्तविपृचाः विकृचस्था विपृचैते विप्रचाः पापेन पापेन पुन्ता कृतेति पुन्ता इन्द्रस्य वज्राः वज्रोसि असि वाजसाः वाजसा प्रयाः वाजसा इति वाज स्वाः प्रयायन् अयं वाजं वाजां सेत् सेरिति सेत् वाजस्य नु नुप्रसवे प्रसवे मातरम् प्रसवदितिप्रसदे मातरं महीं महीमहीतिम् अदीयन्नाम नाह अजसा अजसा करामहे करामः इति करामहे यस्यामिदम् इदम् विश्वम् विश्वम् भुवानम् भुवानमाविवेश आविवेश तस्याम् नो देवः देवस्य विता सविता जन्मा जन्म सा विषके सा विषदिति सा विषके देवी रामः आपो अपाम् अपान्नपात् नपाद्यः यो वाणिः पूर्वप्रदोवर्तिः प्रदोवर्तिर्योवत्तिः प्रपुन्मानी वा यसाः कपुन् मानिति कपुत् माम् वायसास्तेन वायसा ही वाय अयम् वाजम् वाजांसेत् सेदि सेत् अपम् अरः अप्सित्य सो अन्तरमृतम् अमृतमप्सु अप्सु भेदेधजम् अप्सित्य सु वेषजमपाम् ज़ं। ज़। वे अपामृता उत प्रशस्तिभिः प्रशस्तिभिरिति प्रशस्तिभिः अश्वा भवता इति वाजिनाः पातो ओ वानाः मनोरो वा आ गन्धर्वाः गन्धर्वाः सप्तविंशतिः सप्तविंशतिरिति सप्त विंशतिः ते अग्रे अग्रे स्वम् अश्वमयुञ्जन् अयुञ्जव्यस्ते ते अस्मिन् अस्मिन् यवम् यवमादाधुः आदधुः अरघुरित्यादधुः वातराम्भा भवतराम्भा इति वात राम्भाः भव पादिन्ने पादीम् युज्यमानः युज्यमानहस्य इन्द्रस्येव दक्षिणः इन्द्रस्येवेति इन्द्रस्य इव दक्षीण श्रिया श्रियैधि एधीत्ये एधि इन्द्रियम् कृत्वा मरुताः मरुतोसौ विश्ववे एसः विश्ववे विश्ववेदसरिति विश्ववेदसः आदे ते पृष्टा स्पष्टा भसु पत्सु जवम् पत्सुति पतेत्सु जवन्दधातु प्रधातु जभोयः यस्ये ते वाचिन् वाचिन्निहीतः निहितो गुहा निहितरितिनि गीतः गुहायः यस्येने शेने परी अचरते री अचरत् अचरचे वाते बलवान वाजिन्बवान्लवान्ब न बलवा बलवान् बले एन वायजिते वायजिच्च वाजजिदिति वाजयिते चैधि ये हि समाने समाले च च पारयिष्णुः पारयिष्णुरिति पारयिष्णुः वाजीनो वाजजितः पाययितो वाजम् वाजजित इति वाजदितः वाजाम् सरिष्यन्ताः सरिष्यन्तो बृहस्पतेः बृहस्पते अद्भागम् पाकमव भा, अव जिघ्रता जिघ्रतेति जिघ्रता देवस्य वयम् पयाम पितुः सवितुः सवे सवे सत्यशासः सत्यसर्वसो बृहस्पतेः सत्यसर्वस इति सत्य सावसः बृहस्पते अयरुत्तमम् उत्तमम् नाकम् उत्तममित्युत् कमम् नाकामम् रुम कृतेन्द्रस्य इन्द्रस्योत्तमम् उत्तमम् नाकम् उत्तममित्युत् कमम् नाकामम् रुम े मारुहाः अरुहाम् बृहस्पते बृहस्पते वाजुम् वाजुञ्जया जय बृहस्पतये बृहस्पतये वाचम् वाचम् वदता वरत बृहस्पतिम् बृहस्पतिम् वाचम् वायुञ्जावयता यावयते इन्द्र इन्द्रवायुम् वायुञ्जया जयेन्द्राय इन्द्राय वाचम् वाचम् वदतारकेन्द्रम् इंद्रम, इन्द्रम् वायुम् वाचनृञ्जापयत व्यापय कैषा एषा वासा सा सत्या सत्या संवाक् संवागभूत् संवादिते सम् वाक् अभूद्यया यया बृहस्पतिम् बृहस्पतिम् बालम् बालमदीजपत अदीजपतादीजपत अदीजपत बृहस्पतिम् बृहस्पतिम् वाचम् वाचम् वनस्पतयः वनस्पतयोगी इति मुच्यध्वम् मुच्यध्वम् देवस्य देवस्य भयम् पयाम् सवितुः स्रवितु स्रवे सवे सत्यसर्वसः सत्यसर्वसो बृहस्पतेः सत्यसर्वस सत्य ृहस्पदे अर्वाजिताः वाजजितो वाजुम् वायजित इति वाजापिताः वायम् येष्म जयेष्म वाजीनः वादीनो वाजुम् वाजिम् जयता जयताध्वानः अध्वानस्कभ्रन्ताः भ्रन्तो योजना योजनामिमाहानाः मिमाहानाः काष्ठानि काष्ठाम् गच्छत गच्छते ते गच्छत ये हस्यः स वाजी वाजीक्षेपणीम् क्षिपणिम् तु रण्यति ग्रीवायाम् ग्रीवायाम् बद्धः बद्धो अपि कक्षे आसने अपि कक्षे आसनेत्रासने कुटलम् दधिक्राः अधिक्रा अनो दधिक्रा, दधिक्रा, दधिक्रा इति सन्तवेत्तदिति सन्तवेत्त्वत् पठाङ्काव्यसि अङ्काद्यस्य नु अङ्गापने भनदे आपने भनदित्या नीपणते उत स्मा स्मा स्या अस्य द्रवातः द्रवातस्त्वरण्यतः त्वरण्यतः पर्णम् पर्णम् वा नवेः देरमु अनो वाति आदिप्रगद्भिनाः प्रगद्भिन इति प्रगद्भिनाः शेनस्येवभ्रजातः श्येनस्येवेति श्येनस्य इव भजातो अङ्कसम् अङ्कसम् परी परी दधिक्राम्णाः दधिक्राम्नः सः दधिक्राम्ण युति दधि क्राम्नाः सहोवर्जा भूवर्जा तरित्रतः परित्रत इति वाजिनो हवेदेषु अवेदेषु देवता आता देवता तामितद्रावः देवतातेति देव प्राता वितद्रावः सर्गाः वितद्रावयिते मितद्रावः स्वक्रान्तिषु अत्राः व्यम्भयिन् कोऽहिम् अहिम् रक्षा अग्न्यसि रक्षा अग्न्यसितने ्यस्पत् आत्मद्योजवन् विजवन्नमीराः अमीरा इत्यमीवाः तेलाः नो अर्वन्तः अर्वन्तो हवनः श्रुताः तेलाः न अर्वन्तः अर्वन्तो हवनश्रुताः हवनश्रुतो हवम् हवनश्रुत इति हवन कृताः विश्वे विश्व ऋण्व शुण्वंत वाजिना वाजिन आ मित्रव मितद्रवीती मित्र सहस्रसा मेधसा सहस्रसा सहस्र सा मेधस आताइवत्म मेधस आताइ मेधस आद इव आत्मना धनम् धनाम् समितेषु समितेषु जिरे समितेष्विति संषु जर इति जिरे वाजे वाजैवत वाजे वाज इति वाजे वाजे अवतवाजिनः माजिनो नः नो धनेषु धनेषु विप्राः विप्रा अमृताः अमृता ऋतज्ञाः ऋतज्ञा इत्येतज्ञाः अस्य न मध्वाः मध्वः पिबता पिबतमादयध्वम् मादयध्वम् तृप्ताः तृप्ता याता यात पथिभिः पथिभित्ते वयानैः पथिभिरिते पथिभिः देवयानैरिति देव ीः आमा महाराजस्य राजस्य प्रसवः प्रसवो जगम्याद् प्रसव इति प्रसवः जगम्यादेमे हेमे इमे द्यावाब्धिमि इमे इति इमे द्यावाब्धिमि विश्वरूपे द्यावाब्धिमि इति द्यावाब्धिमि विश्वरूपे इति विश्वरूपे माः मा गन्तम् गन्तम् पितः पिता मातरा मातर युवम् युवमाहाः रामाः मा सोमाः सोमाः अमृतत्राय अमृतत्वाय गङ्ग्यात् अमृतत्वायेत्यमृतत्वाय गङ्ग्यादिति गङ्ग्यात् जीनो वाजयिता वाजू वाजिवाज्यु वाजा सर्वाग्ने सर्वाग्ने बृहस्पते सर्वाग्रे सलिपे वा बृहस्पते भागम् आगमव अवाजिभ्रता जिभ्रतमिमृजानाः निमृजाना इति मृजानाः आपये स्वाहा स्वाहा स्वापये स्थापये विजाय स्वापयतीषु आपये अविचारतवे अविजायेत्यपि य पतवेसवे वसवे हतये अहः पतयेन्ने अहः पतय इत्याहः पतये विनाम मुग्धाय मुग्धाय मुग्धाय विनाम वीनांसिनाय वैनांसिनाय वीनांसिने मीनांसिनान्त्ययनाय मीनांसि न इति आन्त्यायनायान्त्याय आन्त्यायनायेत्या अन्त्य आयनाय अन्त्यायभौवनाय भौवनाय भुवानस्य भुवानस्य पतये पतयेऽधीपतये अधीपतय आयोः अधीपतय इत्यभि पतये आयुः यज्ञेन यज्ञेन कल्पताम् कल्पताम् प्राणः प्राणश्चक्षोः यक्षु श्रोत्रम् श्रोत्रम् पृष्ठम् पृष्ठम् यज्ञः यज्ञो यज्ञेन यज्ञेन कल्पताम् कल्पताञ्जायेः याययेहि ये हि यिस्वाह सोरभारः स्वरिदिस्वाहो प्रजापदेः प्रजापते प्रजाः प्रजापतेरिति प्रजा पदे प्रजाः भूम प्रजा इति प्राजाः अभूमः साः स्वदेवाः देवा अगन्मा अगन्मा अमृताः अमृताः अभूम अभूमेत्य भूम अस्मे स्मेवाह अस्मेत्यस्मे को अस्तु अस्मिन्द्रियम् इन्द्रियमस्मे अस्मे बृम्णम् अस्मेत्यस्मे ब्रह्ममुत उत क्रदुः क्रतुरिति क्रदुः अस्मे वच्चाग्नेऽसि पस्मेत्यस्मे पच्चाग्नेऽसि सन्तु सन्तु आयिते वह नमात्रे मात्रे पृथिव्यै पृथिव्याम् इरन्तेः टे प्राड्यन्ता यन्तासि असि यमानो ध्रुवः ध्रुवोऽसि असि धर्माः धर्मः कृष्यै कृष्यै क्षेमाय क्षेमाय वैली कैर्यैकोषणाय कोषायेति कोषणाय माजस्त्येमम् इमम् प्रसवः प्रसव इति प्रसवः सुषुभेग्रे सुषुम इति सुषुवे अग्रे सोमम् सोमाम् राजानम् राजानवोषधीषु ओषधीष्वप्सु अप्सुत्य कृत्सु ता अस्मभ्यम् अस्मभ्यम् मधुमतीः मधुमतेर्भवन्तु मधुमतीरिति मधुमतीः भवन्तु वयम् वयाम् राष्ट्रे राष्ट्रे च आगयाम याग्रियाम् पुरोहीताः पुरोहीता इति पुरः हीताः वाचस्वेदम् निरम् प्रसमः प्रसम आदभूवैरित्र सवः आबाधूव बभूवेमा इमा च विश्वाः विश्वाभुवनानि भुवनानि सर्वथाः सर्वत इति सर्वताः सनेनिराजाः राजापरी परै याति याति विद्वान् विद्वान् रयिम् त्वयिम् पुष्टिम् पुष्टिम् अस्मे स्मे यस्मे मागस्ेवाम् इमाम् प्रसवः प्रसवः शिश्रिये प्रसव इति प्रसवः शिश्रिये दिवम् निर इमा इमा च स विश्वाः विश्वा भुवनानि भुवनानि सम्राट् सम्राजिति सम्प्रवाज् अवित्सङ्गम् दापयति जानन् सः प्रजानन्निति प्र जानन् जानन स नाह नो रयिम् हेम् सर्वा वीरम् सर्वा नियच्छतु यच्छत् यच्छतु अग्ने अक्ष अक्षाः नरेहालीनः न सुमनाः सुमना भव सुमना इति सुमनाः भवेदि भव प्रणाः नो यच्छ सहस्रजित् सहस्रजित्त्वम् सहस्रजिदिति सहस्रजित् त्वाम्भिदगाः धनगा हि धनगा इति धन असीत्यसि को माम् राजानम् राजामभासे अभासेग्निम् अग्निमन्वालाभामहे अन्बालाभामह इत्यनु आराभामहे आदित्यम् विष्णुम् विष्णुम् सूर्यम् सूर्यम् ब्रह्माणम् ब्रह्माणम् च य बृहस्पतिम् बृहस्पतिमिति बृहस्पतिम् प्रणाः नो यच्छतो यच्छत्वर्यमा हर्यमात्रा प्रपूषा पूषात्रा प्र सरस्वती सरस्वतीति सरस्वती प्रवाके ेवी देवी देवी ददातु ददातु नः अलि दीनः हर्यमणम् बृहस्पतिम् बृहस्पतिमिन्द्रम् इन्द्रम् दानाहाय दानाहाय चोदयात् चोदयेति चोदयात् पाचम् विष्णुम् विष्णुम् सरस्वतीम् सरस्वतीघकारम् सवितारम् च बाजुलम् बाजिनमिते वाजिनम् सरस्वती वाचः वाचो यं यन्तुर्ये तुर्ये तुर्यम् तुर्यम् दधामि ददामि बृहस्पतेः बृहस्पते रष्ट्वा त्वासाम्राज्येन साम्राज्येनाभिः साम्राज्येनेतिसाम् राज्येन अभिषिञ्चामि सिञ्चामि इन्द्रस्य इन्द्रस्थित्वा त्वासाम्राज्येन साम्राज्येनामि साम्राज्येनेति साम् राज्येन अभिषिञ्चामि शुञ्चामीति शुञ्चामि अग्निरेखा प्राणम् एक अक्षरेणेत्येक अक्षरेण प्राणमुत् उदाजयत् अदजयत्तम् तमुत् उद्येशम् तेषमश्विनौ अश्विनौद्यक्षरेण जक्षरेण द्विपदाः यक्षरेणे तिद्वि अक्षरेण विपदो मनुष्याम् द्विपदैषिद्विपदाः मनुष्यालुदे मुदयताम् अजयताम् तान् तालुदे उज्येषम् येशं विष्णोः कृष्णस्त्यक्षरेण त्र्यक्षरेण त्रीन् त्र्यक्षरेणे पित्री अक्षरेण त्रीमान् इमान् इमान लोकान् लोकान्त् उदरजयत् अजयस्तान् तान् उज्जयेषम् ेषाम् सोमाः सोमश्चतुरक्षरेण चतुरक्षरेण चतुष्पदः चतुरक्षरेणेति चतुः अक्षरेण चतुष्पदः पशून् चतुःपद इति चतुः पदः पशून् उदरजयत् अदयत्तान् कामुदे उच्चेशम् देषम् पूषा पूषा पञ्च अक्षरेण पञ्च अक्षरेण पञ्च पञ्च अक्षरेणेति पञ्च अक्षरेण पञ्चऋतून् ऋतूनुत् मुदजयति अजयत्तान् तानुत् मुद्रे एषम् येषाम् सविता सविता शलक्षरेण षलक्षरेण षट् षलक्षरेणेति षट् अक्षरेणाक्षर धृतोन् धृतोनुते उदयते अजयत्तान् कानुते उद्येषम् एषम् मरुताः मरुतः सप्ताक्षरेण सप्ताक्षरेण सप्ता सप्ताक्षरेति सप्त अक्षरेण सर्प ग्राम्यान् ग्राम्यान् पशून् प्रशूनुते उदाजयन् अजयप्रस्तान् तामुत् पूज्येषम् एषम् बृहस्पतिः बृहस्पति व्रष्टाक्षरेण अष्टाक्षरेण गायत्री अष्टाक्षरेण व्रष्टा अक्षरेण गायत्रीमुत् विराजयत् अजयत्ताम् तामुत् पूज्येषम् मित्रो न वा अक्षरेण न वा अक्षरेण त्रिभृतम् न वा अक्षरेणेति नव अक्षरेण त्रिभृत स्तोमम् त्रिभृतमिति त्रि देशम् वरुणः वरुणो दशाक्षरेण दशा अक्षरेण विराजम् दशाक्षरेणे विदशा अक्षरेण विराजमुत् विराजमिजनम् उदर अजयत्ताम् तावत् उज्जयेषम् एषमिन्दाः इन्द्र एकादशाक्षरेण एकादशाक्षरेण द्रष्टुभम् एकादशाक्षरेणे एकादश अक्षरेण द्रष्टुभमुत् द्रष्टुभमिति त्रिस्तुभम् उदादे अजयताम् तावत् पूज्येशम् तेषम् विश्वेरे विश्वे, विश्वे देवाः देवा द्वादशसाक्षरेण द्वादशाक्षरेण जगतीम् द्वादशक्षरेणे द्वादश अक्षरेण जगतीमुत् उदयन् अजयग्रस्ताम् तामुत् उद्देशेषम् जेषम् वसावः वक्तयोदशाक्षरेण त्रयोदशाक्षरेण त्रयोदशम् त्रयोदशाक्षरेणेति त्रयोदश अक्षरेण त्रयोदश ग्रस्तोमम् त्रयोदशमिति तमुदे उज्जेहम् येषाम् दुद्राः दुग्राश्चतुर्दशाक्षरेण चतुर्दशाक्षरेण चतुर्दशम् चतुर्दशाक्षरेणेति चतुर्दश अक्षरेण चतुर्दशग्रस्तोमम् चतुर्दशमिति चतुर्दशम् स्तोममुत् पुरजयन् अजयग्रस्तम् तमुत् उज्येशम् एषमादित्याः आदित्याः पञ्चदशाक्षरेण क्षरेण पञ्चदशम् पञ्चदशाक्षरेणेति पञ्चदश अक्षरेण पञ्चदश ग्रस्तोमम् पञ्च यथम् स्तोममुत् उजयन् अजयग्ग्रस्तम् कममुत् उज्वरेषम् एषमलीः अलीति षोडशक्षरेण षोडशाक्षरेण षोडशम् षोडशाक्षरेणेति षोडश अक्षरण शोड़शक्य स्वम्भुराजये अजय तमुषम प्रजापति प्रजापति सताक्षरण प्रजाप्यरिति प्रजापतिः सप्तदशाक्षरेण सप्तदशम् सप्तदशाक्षरेणेति सप्तदश अक्षरेण सप्तदशज्ञस्तोमम् सप्तदशमिति सप्तदशम् स्तोममुत् उदजयत् अजयत्तम् तमुत् उजेषम् एषमिति ओ